तेभ्यश्चान्ये गताः पूर्वम् राजानो बलवत्तराः महारथा महात्मानः सर्वैः समुदिता गुणैः पूरुः क्रुर्यदु शूरो विश्वगस्वो महाद्युते अणुहो युवनाश्वश्च ककुत्सो विक्रमी विजयो वीतिहो त्रोऽङ्गो भव श्वेतो बृहत् देवाह्वयस् सु प्रतिमस् सुप्रतीको बृहद्रथ महोत्साहो विनीतात्मा सुक्रतुर्नैषधोऽनल सत्यव्रतः शान्तभयस् सुमित्रः सु बलः प्रभु जानुजङ्घो नरण्योर्कः प्रियभृत्यस्य चिव्रतः बलबन्धुर्निरामर्धः केतु शृङ्गो बृहद् श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मश हित्वा सुविपुलान् भोगान् बुद्धिमन्तो महाबलाः राजानो निधनम् प्राप्तास्तव पुत्रा इव प्रभो येषाम् दिव्यानि कर्माणि विक्रमस्त्याग एवच च माहात्म्यमपि चास्तिक्यम् सत्यम् दयार्चवम् विद्वद्भिः कथ्यते लोके पुराणे कवि सत्तमैः चापि निधनम् गताः तव प्रतप्ताश्चैव मन्युना लुब्धा दुर्वृत्त भूयिष्ठा नतां तान् शोचितुमर्हसि श्रुतवानसि मेधावी बुद्धिमान प्राज्ञ सम्मतः येषाम् शास्त्रानुगा बुद्धिर्न ते भारत निग्रहानुग्रहौ चापि विदितौ तेन राधिप नात्यन्तमेवानुवृत्तिः कार्या ते पुत्र रक्षणे तथा तच्च नानुशोचितुमर्हसि दैवम् प्रज्ञा विशेषेण को निवर्तितुमर्हति विद्या वर्तते कालमूलमिदम् सर्वम् भावा भावौ सुखासुखे कालः भूतानि कालः संहरते प्रजाः प्रजाः कालम् कालः पुनः कालो हि कुरुते भावान् सर्व लोकेषु भाशुभान् सर्वाः प्रजा विसृजते पुनः कालः जागर्ति कालो हि दुरतिक्रमः कालः सर्वेषु भूतेषु चरत्या अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् तान् काल निर्मितान् बुद्ध्वा हातुमर्हसि सौतिरुवाच इत्येवम् पुत्र धृतराष्ट्रं धृतराष्ट्रम् जनेश्वरम् आश्वास्य स्वस्थमकरोत् गावल अत्रोपनिषदं गावल्गणिस्तदा कृष्णद्वैपायनो पुण्याम् कृष्ण विद्वद्भिः कथ्यते लोके पुराणे कवि सत्तमैः भारताध्ययनम् पुण्यमपि पूयन्ते सर्व देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयो मला कीर्त्यन्ते शुभकर्माणस्तथा यक्षामहोरगा भगवान् वासुदेवश्च कीर्त्यतेऽत्र सनातनः स हि सत्यमृतम् चैवम् पवित्रम् पुण्यमेव च शाश्वतम् ब्रह्म परमम् यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः असत्यसदसच्चैव यस्माद्विश्वम् प्रवर्तते सन्ततिश्च प्रवृत्तिश्च जन्मम् अध्यात्मम् श्रूयते यच्च पञ्चभूत गुणात्मकम् अव्यक्तादि परम् यच्च स एव परिगीयते यत्तत्यतिवरामुक्ता ध्यान योग बलान्विताः प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् श्रद्धधानः सदा युक्तः सदा धर्मपरायणः आसेवन्निमध्यायम् नरः पापात् उभे सन्ध्ये जपम् किञ्चित् सद्यो मुच्येत किल्बिषात् अनुक्रमण्या यावत् स्यात् अह्नारात्र्या च सञ्चितम् भारतस्य वपुर्येतत् सत्यम् चामृतमेव च नवनीतम् यथा दध्नो द्विपदाम् ब्राह्मणो यथा आरण्यकम् च वेदेभ्य ओषधिभ्यो मृतम् यथा ह्रदानामुदधि श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् यथैतानीतिहासानाम् तथा भारतमुच्यते यश्चैनम् श्रावयेत् श्राद्धे ब्राह्मणान् पादमन्ततः अक्षय्यमन्नपानम् वै पितॄंस्तस्योपतिष्ठते इतिहास पुराणाभ्याम् वेदम् समुपबृंहयेत् बिभेत्यल्प श्रुताद् वेदो मामयं प्रहरिष्यति कार्ष्णम् वेदमिमं विद्वान् श्रावयित्वार्थमश्नुते भ्रूण चापि पापम् जह्याद संशयम् य इमम् पठेत् पर्वणि पर्वणि अधीतम् तेन कृत्स्नम् स्यादिति मे यश्चैनम् शृणुयान्नित्यमाश्रम् श्रद्धा समन्वितः सदीर्घमायुः कीर्तिम् च स्वर्गतिम् चाप्नुयान्नरः एकतश्चतुरो वेदान् भारतम् चैतदेकतः पुरा किल वेदेभ्यो हि यदा तदा प्रभृति महाभारतमुच्यते महत्त्वे च गुरुत्वे च ध्रियमाणम् यतोऽधिकम् महत्वाद् भारवत्वाच्च महाभारतमुच्यते निरतम से पाप् प्रमुच्यपो न कलो्ययनम स्वाभाको वेद विधिक प्रसह्य वित्ताह न कलस्तान्य भावता इति कलमन महाभारते आदिपर्व अमणि अनुक्रमणिका पर्व प्रथमोध्याय